मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं तर्टिफैव् शिवविजयः श्रीगणेशाय नमः मुद्गल उवाच एवं परस्परं खोरं युद्धं कृत्वा महाबलाः न जयं प्राप्नुवन्ति स्म कर्म चैव यथा सुरं तं दृष्ट्वा परमाश्चर्यं प्रह्लादकुपितो भवद धनुत्सज्जमहाघोरं कृत्वा बाणान् समाददे मन्त्रयन्ननरास्त्रेण चिक्षेपस शरान् बहून् तेभ्यो जादो महानाग्निः प्रलयानलसन्निभः ददाह देवसेनां सप्रहलादोऽ सुरसत्तमः भयभीदासुराः सर्वे जज्वलुश्च समन्ददः आहाकारं प्रकुर्वन्दो दग्धास्ते जादवेदशा मर्यादां रणभूमिं च तथा त्यक्त्वा पलायिताः महाग्निसर्वतस्तान् वै सुरान् वाहनसंयुधात् प्रबलो दाहयामासप्रह्लादेन प्रचोदितः तेन दैत्यगणाः सर्वे कर्षयुक्ता बभूविरे प्रह्लादं पूजयन्तस्ते साधु साधु कृदन्त्वया सर्वान् पलायमानान् स सुरान् दृष्ट्वा पुरन्दरः मेखास्त्रं योजयामास धनुषि क्रोधसंयुधः यतस्मिन्नन्तरे तत्र प्रह्लादसमुपागतः खड्गेन सहसेन्द्रस्य धनुश्चिच्छेदलाघवाद दा तद इन्द्रप्रकोपेन वज्रं तत्याज तं प्रदि वज्रेण निहदो भूमौ प्रह्लादः स पपातः पतितं तं तथा दृष्ट्वा महिषासुर आगतः गदया देवराजं तं जखाना खलु गदया गतया निहतः सोऽपि पपातरणमूर्धनि मखवा मूर्च्छितोऽत्यन्तं मुखाद्रक्तं समुद्वमन् तदोऽग्निपरमक्रुद्धो जज्ज्वालज्ज्वालया सुरं महिशो जलरूपोऽभूत् प्लावयामास तं क्षणाद निस्तेजाश्चिन्तया युक्ता शक्तिं चिक्षेपावकः तां खड्गे न महा दैत्यः पादयामास भूतले ततो महिषरूपेण शृङ्गाभ्यां दहनं पुनः चकार क्रुद्धः पपात महसां निधिः ततो ययौ यमस्थं वै दण्डखादेन सोहनत चक्रे सम्मूर्च्छिदं दैत्यं महिषं भयदायकं यदस्मिन्नन्तरे तत्र प्रदापी च विरोचनः खड्गेन तं जघानाशु यमं सर्वभयंकरं पपाद खड्गाखादेन यमो यमवदां प्रभुः वरुणस्तं बबन्धा अपि विरोचनं ततस्तं मोजयामास पाश्यं चित्वा महाबलः अन्तःखक् खड्गाखादेन गदया वरुणं तथा मूर्छितं च चकाराभूदुद्धितः स विरोचनः तदो वायुकुबेरश्च तावुभौ क्रोधमूर्छितौ वायुना खड्गखादेन मूर्छितस्त्वमितौ जसा अन्धकासुरनामाः धरणीतले। शम्बरेण कदो वायुर्मुसलेन महाबलः सपपाद तदा भूमौ देवः सर्वधरोऽपि सन् विरोचनेन बाणौ कैष्टाडितो धनरक्षकः मर्मभेदिरत्युग्रैः पपादासौ महाबलः यदस्मिन्नन्तरे तत्र विष्णुः स्वयमुपागतः गदयादं जखानैव विरोचनमधोरिपुं भिन्नो रसं च दैत्येशं मृततुल्यं चकारः अन्धकं चक्रखादेन पादयामास केशवः शम्बरं बाणजालै सम्पादयामास भूतले कुपिदो माधवस्तत्र चक्रं तत्याजदारुणं चक्रेण क्षुरधारेण हदा दैत्यासहस्रशः गदया मूर्च्छिता केचिन्मुख्या ये तत्र संस्थिताः एतस्मिन् समरे वीरप्रह्लादसम्बभूवः सावधानो महाभागस्थं ययौ क्रोधदीपितः बाणवृष्टिं चकारात्सौ महोग्रां देवनाशिनीं तया तान् छिन्नभिन्नाङ्गान् देवांश्चक्रे धरातले गदया देवदेवेशं केशवं युयुधे दे भृशं खड्गेन मूर्च्छितं चक्रे गरुडं दैत्यनायकः ततश्च कुपितो विष्णुस्संहन्तुं चक्रमाददे बहुधा भ्रमयामास तत्याज ह्यस्त्रमुत्तमम् तन्मस्तकानिदैत्यानां चक्रं चिच्छेदसर्वतः बाहूदरभुजांश्चैव चकार शकलीकृतान् सहसा सुरराजं च प्रह्लादं हन्तुमाययौ चक्रं तेजोमयं दिव्यं समीपे ज्वलनप्रभं प्रह्लादस्त्वरयास्त्रं च महाधनुषि संतधे नारायणात्मकं चैव हृदि स्मृत्वा जनार्दनं मुमोच तन्महास्त्रं वै तेजोरूपमोकम् अनिवार्यं जगद्भस्मकारकं कुपिधः परः नारायणास्त्रवेगेन चक्रं प्रतिभदं ततः देवान् सर्वान् ददाहापि महास्त्रं सर्वतः परं हृदये सहसागत्यपदिदं केशवस्य तद् मूर्च्छिदं मृततुल्यं तं चकार च जनार्दनं तदो मदयुधा दैत्या जगर्जुर्हर्षसंयुताः प्रशशंसुर्महाभागं प्रह्लादं तेजसान्वितं नारायणास्त्रसन्दग्धान् देवर्षीन् वीक्ष्य शङ्करः क्षुभिदो देवरक्षार्थं पिनाकं स्वकरे दधौ महास्त्रं तत्पाशुपदं सन्दधेत् क्रोधसंयुतः बलेन मोचयामासत्वरा वाकरो भवन् महास्त्रं वै पाशुपदं तथा नारायणात्मकम् उभे अस्त्रे संयुगे ते युयुधा देवा मुनिगणस्तत्र हर्षयुक्ता बभूविरे प्रशशंसूर्महादेवं देवदेवं च शङ्करं ततः पशुपतिक्रुद्धस्त्रिशूलं सन्दधे मुने तत्याज दैत्यसेनायां कुर्वाणं प्रलयं परं त्रिशूलं च करोति स्म मृदान् दैत्यान् सहस्रशः प्रह्लाद हृदयेकस्मात् पपाद यमसन्नमेंस पिदो भूमौ वादाइव ध्रुम दैत्यसैन्ये महानसी तोलाफर तत स्त्रिशूल वेगन शितेन सहसा सुरा मूर्चिताच कृद केजिकेजिद्व मरीता मुने सर्वे सुरगणास्तत्र पतितारणमूर्धनि तदो मत्सरपुत्रौ द्वौ शङ्करं जग्मधुप्रभो सुन्दरप्रियनामा च विषयप्रिय एव वयः उचतुशङ्करं तत्र क्रोधयुक्तौ महौ सुरौ ॐ तत्सदिति श्रीमदान्ध्ये पुराणोप निषदिश्रीमन मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरि शिव विजय नाम पंचत्रिंशोध्याय ओम।